मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं सेवन्टि चिन्तामणिहरणं श्रीगणेशाय नमः गृत्समद उवाच एकदा कपिलस्यैवाश्रमं देवपदेर्ययौ सर्वामरसमायुक्तस्तं न ननाम कृताञ्जलिः अपराह्णे च सम्प्राप्तमिन्द्रं दृष्ट्वा महामुनिः न्यमन्त्रयक्षुधायुक्तं सर्वैर्योगीश्वरो मुदा सिद्धियुक्तं गणेशानं ध्यात्वा ह्यमृतमुत्तमं देवार्थं कल्पयित्वा स भोजयामास तेन पृथिव्यमृदभोगेन सन्तुष्ट सुरनायकः मुनये वायुना नाय प्रददौ मणिमुत्तमं गणेशभूषणं चिन्तामणिर्मुख्यं प्रकथ्यते mm. योगी धृत्वा समात्मानं मन्यते स्म कृतार्थकं कपिलस्तत्र मनसि विचारमकरोत् गणेशोऽकं न भिन्नश्च अदो अतो गणेशदेवेन प्रेरितोऽयं मणिर्महान् कण्ठे च तं यथा गणपतिस्तथा तं दृष्ट्वा हर्षिदा देव सेन्द्रा स्व स्वस्थलं ययुः तत्र संस्थितो मणिसं प्रह्लाद उवाच स्वानन्दवासकारीजगणेशो ब्रह्मनायकः तस्येन्द्रेण मणिर्योगिन् कथं लब्धो वदस्व मां वृक्षमद उवाच शृणु प्रह्लादमाहात्म्यं चिन्तामणिसमुद्भवम् कथयामि च ते प्रीत्यात् सर्वपापप्रणाशनम् एकदा विष्णुना पूर्वं तपस्तप्तं सुदारुणम् तेन शान्तिरनुप्राप्ता षडक्षरविधानतः तस्मै भक्तिपरीक्षार्थं ददौ चिन्तामणिं प्रभुः गणेशो भक्तिदानार्थं चिन्तितार्थप्रदायिनं विष्णुना पूजने क्षिप्तो मणिश्चिन्तामणिप्रभो अहं भक्तो गणेशस्य न योग्यो धारणे मणिः भूषणं गणनाथस्य पूजनीयं विशेषतः न धार्यं देवदासैस्तत्पूजा कार्या च नित्यदा शान्तियोगेन विघ्नेशो मया हृदि हृदस्वके न भिन्नस्तदपि स्वामी तदो दासोऽहं स्वभावतः ततो बहुगते काल इन्द्रस्तपसि संस्थितः एकाक्षरविधानेनातोषयद्गणनायकं बभूवयुक्तो ध्यानेन सददम् देवनायकः योग युक्तक्रमेणैव गणपत्यो बभूवसः शान्तिं प्राप्य स्वयं देवो गणेशा भेदतां गतः आजयौ स्वगृहं पश्चाद्देवराज्यं चकारः यतस्मिन्नन्तरे दैत्यगृहे शुश्रावकेशवः अशरीरां महावाणीं शृणु तत् कथयामि ते चिन्तामणि महाविष्णु देहीन्द्राय महामदे शान्तियोगधराय अद्य मद्भक्ताय ददाम्यहम् श्रुत्वाकाशभवाम् वाणीं ययौ विष्णुर्दौ परं महेन्द्राय अमरावत्यामणिं तं चिन्तितार्थतं मखवादासभावेन संस्थाप्य पूजयन्मणिं न योग योगमदतां प्राप्तो महेन्द्रश्च प्रतापवान् तं मणिं कपिलं दृष्ट्वा शान्तियोगधरं प्रभुं ददौ तस्मै महेन्द्रस्य भावयुक्ते न चेतसा अयं सिद्धेश्वरसाक्षाद्योगसन्धारणे मणेः वयं गृहस्थसंशीला न योग्या इत्यधारयद एवं क्रमेण जानीहि चिन्तामणिसमागमं कपिलस्वगले नित्यम्बन्ध गणराजवद गदे कियदि काले वै कपिलस्याश्रमं ययौ मृगयाभिरदो दैत्यो गणासुर इति स्मृतः शनां बहिः समास्ताप्य एकाकी मुनिमा कपिलं प्रणनमैव कृताञ्जलिपुटस्थितः विनीतं तं विलोक्यैव कपिलस्तमुवाचः कोऽसि कस्मादिहायादो वद सर्वं नरोत्तम गणासुर उवाच गणासुर इति ख्यातो नाम्नाहं मुनिसत्तम मृगयाभिरदो दैवे नैवोपसाधितः तवाश्रमे क्षुधायुक्तश्रान्तवाहन एव सहसागत्य सन्तृप्तः सुखदायके जलं फलान्यहम् पीत्वा भक्षयित्वा ससैनिकः दर्शनार्थम् समायाध सेना मे सरसि स्थिता त्वद्दर्शनेन निष्पापो जादोऽहं मुनिसत्तमा आज्ञाम् देहि गमिष्यामि ससैन्यो नगरम् स्वकम् तस्य तद्वचनम् श्रुत्वा सन्तुष्टकपिलो वदद ससैन्यो भुङ्क्ष्व किञ्चित्त्वं मद्दत्तं नृपसत्तम ममाश्रमे च दैत्येन्द्रक्षुतितत्त्वं समागतः अत त्वं प्रार्थये भोप अतिथिं सुसमागतं तथेधि संस्थितत्र गणदैत्यः प्रतापवान् उक्त्वा विनयसंयुक्तकपिलेन सुसत्कृतः तादकपिलशिष्येण सेनानिदा गणस्य वै सेनया सह दैत्यशं पूजयामासं मुनिः चिन्तामणिं स सम्पूज्य प्रार्थयामासोजनं यथा रुचि सर्वेषां तथा देयं महामणिः ततो मणिप्रसादेन षड्रसै संयुधं परं स्थितं पात्रेषु सर्वत्र प्रेषितं त्वन्नमादराद ततस्तार्भुक्तमत्यन्तं स्वादयुक्तं विशेषतः ससैन्यो गणदैत्यो भूद्विस्मितो चेदसा भृशं मुनिं प्रणम्य दैत्येश आर्तयतमहामणिं न ददौतं मुनिश्रेष्ठो गणेशम्भूषणं मणिं ततो मणिं सप्रजय्यौ स्थानं हर्षनिर्भरमानसः मुनिः क्षुब्धो महाभागतस्य नाशाय दुर्मदेः विचारमकरो चित्ते मणिग्रहणलालसः दैत्यो विनीतसुसमागतः चकारकर्मप्रहलादपश्य तज्जातिवत्परं तदो दुष्टो विनीतश्च न विश्वास्य कदाचन दुष्टसङ्गतियोगेन ज्ञानभ्रंशप्रजायते ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते चिन्तामणिहरणं नाम सप्ततितमोऽध्यायः ओम्